क्षमाम् तादृशीम् कृष्णे कथमस्मद्विधस्त्यजेत् यस्याम् ब्रह्म च सत्यम् च यज्ञालोकांश्चधिष्ठिताः क्षन्तव्यमेव सततम् पुरुषेण विजानता यदा हि क्षमते सर्वम् ब्रह्म तदा क्षमावतामयल्लोकः परश्चैव क्षमावताम् इह सम्मानमृच्छन्ति इति गीताः काश्यपेन गाथा नित्यम् क्षमावताम् श्रुत्वा गाथा क्षमा यास्त्वम् तुष्यद्रौपदी मा क्रुधः पितामहः शान्तनवः शमम् सम्पूजयिष्यति कृष्णश्च देवकी पुत्रः शमम् आचार्यो विदुरक्षत्ताशमेव वदिष्यतः कृपश्च सञ्जयश्चैव शममेव वदिष्यतः सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च पितामहश्च नो व्यासः वदति नित्यशः एतैर्हि राजा नियतञ्चोद्यमानः शमम् प्रति राज्यम् दातेति मे बुद्धिर्न चेल्लोभान् न शिष्यति कालो यन्दारुणः प्राप्तो भरतानामभूतये निश्चितम् मे सदैवैतत्पुरस्तादपि भाविनी, सुयोधनो नार्हतीति क्षमामेवम् न विन्दति अर्हस्तत्राहमित्येवम् तस्मान् एतदात्मवताम् वृत्तमेष धर्मः इती श्री श्रीमहाभारनपर्वणे अर्जुनागमन पर्व द्रौपदी युधिष्ठि संवादनिश्याय